हिण्य वर्णा जापका जाता कश्यपोम्रागर्भंधिस्तावश्यो नवराजा वर्ण जात मध्य सज्जा अवपश्य जनाश्युदुजा पापास्तावश्यो नव यासा देवादिविकण् भक्षम् अन्तरिक्षे बहुधा भवन्ति याः पृथिवीम् पयसोऽ शुक्रास्तानः पश्यग्रिस्यो ना भवन्तु श्वेन वाचक्षुषा पश्यतापश्यवजातनवोपस्पृशतत्वचम् मे सर्वागम् अग्ने गौरत्सुषतो हुवे वोमयि वचो तस्मादानद्यो नामस्तदा वो नामा निसिन्धवः यत्प्रेषिता वरुणे न ताश्रीभुम् समवल्गत आप्नोदिन्द्रो बो बोजतेस्तस्मादापो अनुस्थनग्रस्यन्दमाना अविवरतबोहिकम् इन्द्रोपशक्तिभिर्देवेस्तस्माद्वारुणामबोहितम् एको देवो अप्यतिष्ठत् स्यन्दमाना यथा वशम् उदानिषर्महेरिति तस्मात् तकमुच्यते आपो भद्राघितमितापः सुरग्ने सोमौ बिभ्रत्यापीव्रोरसोपसुवृजापरङ्गम आमा प्राणेन सह वर्तसा घण् आदित् पश्याम् युतवासृणो म्यामा घोषो गच्छति वाङ्न आसाम् मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्मा अतृपञ्जता वः ष्ठामस्तानपोर्जे तथा तनाय रक्षसे योवश्य पतमोरथस्तस्य भाजयते हनः विशशीरिव मातरः तस्मा रङ्गमामबोजस्य क्षयायजिन्मथ भापो जनयथा जनः दिविश्रजस्वान्तरिक्षयतस्व पृथयुजासम्भव ब्रह्मवर्तसमसि ब्रह्मवर्चसायत्वा ग्रहाङ्गृह्णाचाव राजसो जयते ते ग्रहार्वर्णसवो राजसोऽयमग्निशवस्य चस्ताभ्यामेवसो जतेऽ उभावेव लोकापेयश्च राजसो ये जानस्य यश्च आग्निजत आपोभवं चाभोवा अग्नेर्भातृ यायतपोग्नेपदधात्मना परा शब्दा त्रियुजा भवत्यभृतं वा आपस्तस्मादभिरवतान्तमभिषिञ्चन्ति नार्तिमार्चति सर्वमाजुरेधिजश्चैता उपधियं तेजवुजैना एवं वेदान्नं पशवाशवोन्नादः पशुमान्भव धिजस्यैता उपधेजं तेजवुजैन एवं रुन्धा द्वादशात् पात्रा न छिद्यते यस्यैता उपधीयन्तेश्च कुम्भेश्च मिथुनानि भवन्ति मिथुनश्च प्रजात्ये प्रजया उपधीयन्ते अग्निस्वग् ुचार्पयति यदप उपदधाति प्रजाय त्रेता उपथेयम् एवं वेदशुग् अग्निस्वद्भर्जुन्यजमानं प्रजाशुचार्पयति यदप उपदधा दिशितमेवार्जुर्न याम्यं दि प्रजा यत्रेता उपथेजं देवां वा एतानि हृदया निताप जा दे दे उपधाति देवैना दे दे सगं सृजति दे परुषकः भवति यो वा एतां वेदाय स्मानुषेदमुपदधात्येतद्वासामायतनृत्यं वेदायत न वा कल्पते स्मेद्वन्द्वमन्या उपदधाति च तस्व मध्ये खलु वै साक्षादन्नैजय चलमुपदधाति साक्षादेवास्मा अन्नमवरुन्धय मध्यदमुपदधादि मैदेव स्म अन्नं दधाति तस्मा ृहस्पद्यो भवद्ब्रह्म वै देवानाम् बृहस्पतिर्ब्रह्मणैवास्मा अन्नमवरुन्धे ब्रह्मवर्तसमजेत्याहवेजस्ये ब्रह्मवर्तसे भवति जस्ये शपुपथे जते जबुजे नमेवम् वेदा भूतेष्टगा उपदधा तत्रात्र वै मृत्युर्जायते यत्र यत्रैव मृत्युर्जायते तदेवै न मजते तस्मादग्निवमाजुरेति स्मादग्निचिन्नाभिचरितवैर्त्यनुते देव सुभामेतानि हमेकं शुभवं चेदाो वै देवानागुं सभास्तवास्मिन् प्रजच्छन्ते समोऽग्निर्वर्णसभो राजसूजं ब्रह्म सपश्चित्वसूतैरं ब्रह्मणा देवदाभिरभिषिंश स्यान्नस्याभिषिञ्चत्यन्नस्यान्नस्यावरुद्धि पुरस्ता पुरस्ताधिप्रति चेषतोभिषिञ्चति शेरुषतोऽख्यन्नस्रावयते स्मान्नाद्यथात्यग्ने स्वासाम्राज्येन अग्ने सवस्तेनैवैनमभिषिञ्चते हस्मते स्वासाम्रा Then I'm, dead, I'm dead. मेत्याहव्यं हवे देवानां बृहस्पतिर्ब्रह्मणे वैनभिषिञ्चतेन्द्रस्यमेत्याहेन्द्रियमेवास्मिन्नुपरिष्टान् दधाद्वै राजसो यस्य लोकौ यं विद्वानग् नावेव लोकाभिजयति यश्च राजसो येन परापतप्त सौत्रामण्या समभरान् सूजते दे वा एषयोसौत्रामन्या चेतम् दे दे द्विजमेव विरुकम् सम्भृत्यात्मम् धत्ते सजोरग्दोजाभिः सजोरुषा अरुणेभिः सजो सौर्य एतशेन सजोषा वाश्विनादग्निर्वयेश्वानर इडाभिर्धृन स्वाहा संवत्सरो वा अब्धो मासा अजावा उषा अरुणि सोर्ज एतश इमे अश्विना संवत्सरो अग्निर्वयेश्वानर पशव इडा पशवो धृत संवत्सरं पशवो नु प्रजायन्ते संवत्सरेण दर्भस्तम्बे जुहोदवास्तस्मिन् जुहोदिप्रैवजायते अग्ने पुरस्ताद्भागास्तादेव प्रेणा चक्षुरेवाग्ने पुरस्तात् प्रति तथा गणन्धो भवति य एवं वेदापो वाचिरमग्रे सिलमासे पुष्करपर्णे वातो ुपादधात् तच्छिरो भवत्सा प्राचे दिव्यां दक्षिणत उपादधात् स दक्षिणः पक्षो भवत् स दक्षिणादिव्यां पश्चादुपादधात् तत्पुच्छमभवत्सा प्रदेचे दिव्यामुत्तरत उपादधात् स उत्तरः पक्ष भवत्सो ज्ञाभृष्टादुपादधामां वदागुं सुनग्नाध्यासते यदेवं विद्वान् अत्ययतिष्ठत्यभि दिशो जयत्याग्ने वै ब्राह्मणस्तस्मात् ्राह्मणा सर्वासतिक्ष्वर्थस्वामेव तद्य समन्वेः कुलायम् तस्मादापोऽज्ञहारुका स्वामेव तद्योनिम् प्रविशन्ति संवत्सरमुख्यं भत्वा द्विगेदे संवत्सराः ज्ञेयमष्टाकपालं निर्वमेदीन्द्रमेकादशकपालं वैश्वरेवं द्वादशकपालं वारिहस्पत्यञ्चरम्बैः त्रिकपालं त्रिगेदे संवत्सरे द्विजिताष्टाकपालवच्छष्टाक्षरागायत्र्याः ज्ञेलङ्गायक्षं रातस्य वनं प्रातस्सवनमेव तेन दाचार गायत्रे छन्दो यदेका एकादशाक्षरात् माध्यन्तो जद्वादशकपालो भवति द्वादशाक्षरा वैश्वदेवं जागतं त्रेकसवनम् त्रिदेकसवनमेव देनदाधार जगतिपत्यक्षरुर्भवति ब्रह्म वै देवानाम् बृहस्पतिर्ब्रह्मै वदेन दाधार जग् वै ैष्णमस्ते भवदज्ञो वै विष्णुलग्मेव तेन दाधारज तृतेजय संवत्सरे भिता यजतेऽभिजितेजत्संवत्सरमु तेन लोकग्रस्पृणोति जद्वितेजय संवत्सरे चरिक्षमेव तेन स्पृणोति ज तृतीयजय संवत्सरे भजते मे वेन वै पर आत्मारः कक्षे वागुम् सदस्युः पौरुकुः सहाम्बत ततो वैते सहस्रगुम् सहस्रम् पुत्रा न विन्दन्त प्रथते प्रजया पशुभिस्ताम् मात्रामाप्नोधियान्ते गच्छ निज एवम् प्रजापतिरग्निमचिनुत सक्षुरपवित् भूत्वा तिष्ठत्तं देवाभिभ्यतो नोपायन्ते छन्दोभिरात्मानं छादयित्वोपायन्दच्छन्दसान्दस्त्वं ब्रह्म वै छन्दागं स ब्रह्मणदेतद्रूपै यत्कृष्णाजिनङ्गाष्ण्ये उपानहामुपमञ्चते छन्दोभिरेवात्मानं छादयित्वाग्निमुपचरच्चात्मग्निरग्ने भावै वा प्रतिप्रजानात्युषा वा ग्रामत्यात्मनमेवाधिपा कुरुते गोप्या असौ खल्वाहुर्नाक्रम्येति अस्थान्यतगुम्भवावदृभ्यो वाचेन्द्रो चभिरग्निं च न दिशात्मानमेवाग्निं च न देशात्मा भवतिज एवं वेदशरीरं वा एतदग्ने य आत्मा वै ईश्वानरो यच्छिते वै ईश्वानरञ्जो हदिशरीरमेवत्याध्यारोहति शरीरं ग्निं च नु तेजच्छ्रिदेवैरेश्वा नरं चो शरीरमेव सग्र्यात्मनाभ्यारोहति तस्मात् तस्य नावज्जन्ति जीवन्नेव देवानप्यजेश्वानर्यर्चा पुरेशमुपदधातिजं वा अग्निर्वैः विश्वा नरस्तस्यैषा चतुर्जत्पुरेशमग्निमेव वैः विश्वानरं च नृत एषा a yeah. ग्नेर्वै देक्षया देवाभिराजमाप्नवम् द्विस्व सरस्संवत्सरो विराट् विराजमाप्नोति त्रयोदश रात्रेः त्रयोदश मासाः संवत्सरस्संवत्सरो विराट् विराजमाप्नोति पञ्चदश रात्रेः देक्षिणस्यात् पञ्चदश अर्धमासस्य राजोऽर्धमासम्वत्सराः संवत्सरो विराट् विराजमाप्नोति संवत्सरो विराट् विराजमाप्नोतिशतिगुं रात्रेः दीक्षितस्यातुर्विघुंशतिरर्धमासाः संवत्सरस्संवत्सरो विराट् चतुरो वाजयतं मासो बसव बिभरुस्ते पृथिवेमाजजं गाजत्रेन् छन्दोष्टौ रुद्रास्तेहं परिक्षमाजुं छष्टभञ्छ छन्दो द्वादशादित्यास्ते दिवमाजयं जगतेन् छन्दस्ततो वैते भृत्वाग्निसरस्संवत्सरो स्तस्याहोरात्राणेष्टगा आप्तष्टगमेन च न ते सो व्यावृतमेव गच्छति श्रेच्छकं समानाना सुवर्गाजपादेशलोकाय चेयते यदग्निस्तंहे हेत् सुवर्गाल्लोकान् प्राणो मामाहासेदं तयक्षमाक्रमिषं व्रजामासेद्यमाक्रमिशकं सुवर्गन्मेहति सुवर्गस्य लोकस्य समस्ये यत्पक्षसंहितां विनुजात्कनेदां संयज्ञ त्मापेजस्य आत्मनः प्रजा स्याद्वेदितानोदित्यागुंसमेव यज्ञापेजे प्रजाभव साहस्रं चिन्वेदप्रथमं चिन्बानसहस्रसंमितो ोकोमुमेव लोकमभिजगति जानुदग्धं चिन्वेदप्रथमं चिन्वारोहदिनाभिदग्धं चिन्वेदद्वितेजं चिन्वारोहतिग्रेव दग्न्वानो जगत्यैवामुं लोकमभ्यारोह दिनाग्त्वा रामामुपेजादजो श्रुत्वा काञ्चनोपेजाव्रेतो वाजेतं यदग्निपेजाव्रेतसा व्यध्येता खल्वाहुरप्रदस्यां दद्यन्नोपेजाजति जग्रेतस्य चापुपध्यानस्सरेतस्तस्मादुपेजाव्रेतसो स्कन्दायत्रे निवामरेत पुत्रः पवत्रो यद्वैरेतस्य चापुपदध्याव्रेतो उपदधातिरेतथस्सन्त इदं वा प्रसमारे तस्य पश्यन्ति वाचं वदन्तिमन्तरिक्षन् द्वितेजा प्राणो वा अन्तरिक्षं तस्मान्नान्तरिक्षं पश्यन्ति न प्राणमसौ त्रितेजा चक्षुर्वा असौ तस्मात् पश्यन्तमों पश्यन्ति चक्षुर्षुषे माञ्चामो चोपदधाति मनसामध्यमामेषां लोकानां प्राणानामिष्टो यज्ञो भृगभिराशुभिस्तस्य त इष्टस्य वेदस्य द्रविण भक्षि देव्या हस्ततशस्त्रे एवैतेन दुहे पिता पदा अच्छिद्रा उषुदः पदानुदक्षः सोमो विश्वपिन्नेतानि बृहस्पतिरुक्थापदानुशगुंस देव्या हैतद्वा ग्नेनाय मुखायाम् भ्रजते गर्भागेवैलं करोधिक्यं दुःखान् निरोहेद्यो निर्गर्भ निर्हण्या षडुज्यामगं शिक्यं भवति सोढा विहितो वै पुरुषात्मा च शिरश्च चत्वारि त्मन्नेवैनं निभर्त्य प्रजावजर्वादेशजदग्निस्तस्योखा चोलोखलं च स्तनौ धावस्य प्रजा उपजीवन् दुःखाञ्चो लोखलं चोपदधा गामेव यजमानोमस्मिन्लोकेन्दुहे संवत्सरोवादग्निस्तस्य त्रेधा विहिता यष्टकाः प्राजापत्या वैष्णवेश्वकर्मणे रहो रात्रान्येवास्य प्राजापत्याय दुख्यम् ्राजाभक्त्या तदुपधत्येव तदुपधत्यश्वकर्मा वैश्वरेव तदुपधत्य तस्मादाहुस्त्रग्निरिदम्बायजमानरेदयदस्यान्यस्किनुजाद्य दक्षिणाचर्नराधयदग्निमस्य वृञ्जयस्याग्नि रक्षणाभितलेदग्निमेव शृणोति ग्निमचन तत्तुभिः संवत्सरं वसन्तेनैवास्य पूर्वार्थमचिणं वक्षं वर्षाभिः पुच्छकं शरदोत्तरं वक्षकं हेमन्तेन दक्षिणं वक्षं वशुभिः पुच्छं विषोत्तरं वक्षभाषयां विद्वानग्रं च देवैन ेतयज्ञं दक्षिणामात्मानं प्रजामन्त श्च तजस्तवः प्रतिष्ठति पञ्च चतजो भवन्ति पान्तः पुरुष आत्मानमेव स्पृणोति पञ्च चतजो भवन्ति पञ्चभिः पुरुषैरभ्योद्यं ते वै पुरुषो जनेव पुरुषस्तग् स्पृणोत्य षोदशाः क्षरा विरां विराज्ञाज्यवान्नाद्य वै षष्ठी चिति पुरे शकमुच्चितजोगवन्दिषड् पुरेपद्यन्ते द्वादश मासाः संवत्सरः संवत्सर एव रोहितोधूम्ररोहितः कर्कं धहितस्ते प्राजाभक्त्या बभ्रुररुणवभ्युः शुखबभ्युस्ते रौद्रा श्वेत श्वेताक्षश्चेतग्रेवस्ते पितृदेवक्त्यास्तिस्रः कृष्णावशा वार्ण्यस्तिस्रश्वेतावशा सौर्यो मेत्रा बार्हस्पत्या धूम्ररलामास्तु फल्गोर्लोहितोर्ने बलक्षिताः सारस्वत्यः पृषते स्थोलपृषते क्षुब्द्रपृषते ताभैः स्वदेजस्तिस्रमावशास्तिस्रौरोहिणीर्वशा मैन्द्रिय ऐं रामाय हस्वत्या अर्णललामास्तुपरा श्रीबाहुरन्यदः श्रीतिबाहुः समन्तः श्रीबाहुस्तैन्द्रवायवाः श्रितिरन्धोण्यदश्रितिरन्ध्रस्थमन्त श्रितिरन्ध्रस्ते मयेन्द्रावरुणाः शुद्धबालः सर्वशुद्धबालो मणिबालस्तपाः श्विनास्ति श्रिल्पावशा मैः स्वदे्यस्तिश्रेणः परमेश्वरे सोमा बहूष्णः श्यामलरामास्तु पराः उन्नतरुषभो वा मनस्थैन्द्रावरुणाति पृष्ठस्यतिपसत्पत्याभृस्तैन्द्रावैष्णवास्तिस्रस्य शाभैः स्वकर्मण्यस्ति श्रोधात्रे पृषोधराहैहिन्द्रापोष्णाश्चेतः रामास्तु भराः कर्मास्त्रजो यामासौम्यास्त्रजस्विलिङ्गा अग्नजयजभिष्ठाय त्रजो स्तिस्रोङ्गिरसामयिन्द्रा वैष्णवागौरललामास्तु पराः इन्द्राजराज्ञे त्रयश्चित् पृष्ठायम् राजाधिराजाय त्रयश्चिदि गुदय राजस्वराज्ञे त्रयश्चिति फसद तिस्रस्तरुजौ ह्यो विश्वेषान् देवानामाज्ञे इन्द्रा अदित्यये त्रयोरोहितैतारिन्द्राण्ये त्रयः कृष्णैताः पुह्वये त्रयोजो रुणैतास्ति स्रोधेनवो रागारे त्रयो नड्वाहस्य निवाल्याःज्ञा वैष्णव रोहित नलामास्तुपराः सौम्याश्रयः पिशङ्गाः सोमाजलाज्ञे त्रयः सारङ्गा आह्वार्जन्नानभो लोमास्तिस्रोजामधुहारिम् राण्ये दित्याद्या वापृथिव्यामालङ्गास्तु पराः वारुणास्त्रजः कृष्णललामा वरुणाय राज्ञे त्रयोरोहितललामा वरुणाय निशादशेत्रयोरुणललामा शिल्पास्त्रयो वैश्वदेवास्त्रयः कृष्णयः सर्वदेवत्या्रासुराश्वेतललामास्तु पराः सोमाजस्वराज्ञेनो वाहा वरड्वाहाविन्द्राग्निभ्यामो जोदाद्भ्यामुष्पाराविन्द्राज्ञिभ्याम् वरदाम् ध्यागुंसेरवाहाववे द्वे भौ द्वेधेनो भौमि दिग्भ्यो वडवे द्वेधेनो भौमि वैराजे पुरुषे द्वेधेनो भौमि वाजव आरोहण वाह वरद्वाहौ वारुणी कृष्णेच्छे आज्ञौ दिविजाभौ परिमरौ एकादश प्रादर्गविदा पशव आलभ्यम् देशकलः कल्माशक्ति देविर्विदेकजस्तेर्वाष्ट्राः सौरेर्नव श्वेतावशा नो बन्धा भवम् चाज्ञे अयेम् राज्ञ विशालजोप आलभ्यन्ते शङ्गास्त्रजो वासन्दाःसारङ्गास्त्रजोऽग्रयेष्माः पृशन्तस्त्रजो वार्षिकाः कृष्णजस्त्रजः शारदाः कृष्णसग्धाजो हैमन्धिका अवलिप्ता स्त्रज श्रैशिराः संवत्सराज निवक्षसः ओ